श्रीमद्भागवतमहापुराणं पञ्चमस्कन्धं त्रिसुर्वाच ततः परं परस्ता लोकालोकनामाचलो लोकालोकयोरन्तराले परितोपक्षिप्तः यावन्मानसोत्तरमेवोरतन्तरं तावति भूमिः यस्यां प्रहितः पदार्थो न कथञ्चित् पुनः प्रत्योपलभ्यते तस्मात् सर्वसद्वपरिहृतासीत् लोकालोक इति समाख्यां जननेनालं नाचलेन लोकालोकस्यान्तर्वर्तिनावस्थाप्यते सा लोकत्वं लोकत्रयान्ते परितैश्वरेण विहितो यस्मात् सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां गभस्ययोर्वाचीनां स्त्रील्लोकान् आवितन्वानान्न कदाचित्पराचीना भवितुम् उत्सहन्ते तावदुन्नहनायामः एतावाल्लोकविन्यासो मानलक्षणसंस्थाभिः विचिन्तितः कविभिः स तु पञ्चाशत्कोटिगणितस्य भूगोलस्य तुरीयभागोऽयं लोकालोकाचल तं तदपरिष्टान्त्यतस्रीस्वासा स्वात्मयोनिला किलजगद्गुरो लाधीनिं निवेशिता ये द्विरन्दपतय ऋषभपुष्करचूडो वामनोपराजित इति सकलोकस्थितिहेतवः तेषां स्वविभूतीनां लोकपालानां च विविधवीर्योपभृणाय भगवान् परं महापुरुषौ महाविभूति परितर्याम्यात्मनो विशुद्धसत्त्वं धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्ध्योपलक्षणं विश्वकसेनादिभिः स्वपार्श्वप्रवरये परिवारितो निजपराजितोपचोभितये निजपूजितं भुजदण्डये सन्धारयमाणय तस्मिन् गिरिवरे समन्ता सकललोकस्वद्य आस्ति आकल्पमेवं वेषं गत एष भगवानात्मयोगमायया विरचितविविधलोकयात्रा गोपीथायेत्यर्थः योऽन्तर्विस्तार एतेन शिल्लोकपरिमाणं च व्याख्यातं यं यद् बहिर्लोका लोकाचलात् ततः परस्ताद्योगे स्वरगतिं शुद्धामुदाहरन्ति अण्डमध्यगतसूर्योद्यावा भूर्योर्जदन्तरं सूर्याण्डगोलं योर्मध्ये कोट्यशो पञ्चविंशतिः मृतेण्डये स एतस्मिन् यद्भूद्दतो मार्तण्ड इति व्यपदेशः हिरण्यगर्भ इति यद्धीरण्याण्डं समुद्भवः सूर्येण हि विभज्यन्तेति सखं दोर्महे त्वर्कापुवर्गौ नरकार कांसी च सर्वश देवतिर्यङ्मनुष्याणां शरीसृपसविरुधां सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः श्री श्रीमद्भागुतये महाबाणैः प्रञ्चसां शीतां पञ्चमस्कन्दे भुवनकोशवर्णने समुद्रवर्षन् सन्निवेशपरिमाणलक्षणो विंशोऽध्यायः